नारदपुराणम् पूर्वार्थम् अध्यायम् 27 सनक उवाच गृहस्थस्य सदाचारं वक्ष्यामि मुनि मुनिसत्तम यद्रूदां सर्व पापानि नश्यन्त्येव न संशयः ब्राह्मे मुहूर्ते चोद्धाय पुरुषार्थाविरोधिनीम् वृत्तिं सं चिन्तयेद्विप्रकृदकेशप्रसाधनः दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः कुर्यान्मूत्रपुरीषेदु रात्रौ चेद्दक्षिणामुखः शिरप्रावृत्य वस्त्रेण ह्यन्तर्धाय नृणैर्महीम् हन् काष्ठम् करेणैकम् तावन्मौनी भवेद्विजः पथि गोष्ठे नदीतीरे तडागगृहसन्निधौ तथा वृक्षस्य छायायाम् कान्तारे वह्निस्सन्निधौ देवालये तथोद्याने कृष्णभूमौ च पृष्ठभूमौ चतुष्पथे ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् तुषाङ्गारकपालेषु जलमध्ये तथैव च एवमादिषु देशेषु मलमूत्रम् न कारयेत् शौजे यत्नः सदा कार्यशौचमूलो द्विजस्मृतः शौचाचारविहीनस्य समस्तं कर्म निष्फलं शौचं तु द्विविधं प्रोक्तं ब्राह्ममभ्यन्तरं तथा मुज्जला मृज्जलाभ्यां बहिःशुद्धिर्भावशुद्धिस्तथान्तरं गृहीतशिश्रश्चोद्धाय शौचार्थं मृतमाहरेत् न मूषकादिखनिदां फालोत्कृष्टां तथैव च वापि कूपतडागेभ्यो नाहरेदपि कुर्यात् प्रयत्नेन समादाय शुभाम् मृदम् लिङ्गे मृदेका दादव्या तिस्रो वा मेड्रयोर्द्वयोः यदन्मूत्रमुत्सर्गे शौच माधुर्मनीषिणः ये, ये कालिङ्गे गुदे पञ्चदशवामे तथोभयोः सप्ततिस्रः प्रदातव्याः पदयोर्मृत्तिका पृथक् यदच्चौजं विडुत्सर्गे गन्धले पापनुतये ये दच्छौचं गृहस्तस्य द्विगुणं ब्रह्मचारिणाम् त्रिगुणां तु वनस्थानां यदीनां तच्चर्गुणम् स्वस्थाने पूर्णशौचं स्यात्पथ्यर्थं मुनिसत्तम आदुरे नियमो नास्ति महापदि तथैव गन्धलेपक्षयकरं शौचं कुर्याद्विचक्षणः स्त्रीणामनुपनीतानां कण्ठलेपक्षयावधि व्रतस्थानं तु सर्वेषां यदि वचौ च मिष्यते विधवानां च विप्रेन्द्र यददेव निगद्यते एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः प्रागास्य उदगास्यो वाप्याचा मेत् प्रयतेन्द्रियः तिश्चतुर्था पिबेदापो गन्धफेनादिवर्जिताः द्विमार्जयेत् कपोलं च तलेनोष्टौ च सत्तम तर्जन्यङ्गुष्ठयोगेन न नासारं ध्रद्वयं स्पृशेद चक्षु अङ्गुष्ठानामिकाभ्यां चक्षुःश्रोत्रे यथाक्रमं कनिष्ठाङ्गुष्ठयोगेन नाभिदेश्ये स्पृश्येद्विजः तलेनोरस्तलं चैव अङ्गुल्यग्रैः शिरस्पृशेद तलेन चाङ्गुलाघ्रयैर्वा स्पृश्येदंसौ तले विचक्षणः एवमाचम्यविप्रेन्द्र शुद्धिमाप्नोत्यनुत्तमम् दन्तकाष्ठम् ततः खादे सत्त्वम् च षष्टवृक्षजम् बिल्वासनापामार्गणम् निम्बान्मार्गाधिशाखिनाम् प्रक्षाल्यवारिणा चैव मन्त्रेणाप्यभिमन्त्रितम् आयुर्बलम् यशो वर्चः प्रजाः पशुवसूनि ब्रह्मप्रज्ञां च मेधां चत्वन्नोद्धेहि वनस्पते कनिष्ठाग्रसमं स्थौल्ये विप्रकादेशाङ्गुलं नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितं शूद्रो वेदाङ्गुलमिदं वनिता जमुनीश्वर अलाभे दन्तकाष्ठानां गण्डूशर्भानुसम्मितैः मुखशुद्धिर्विधीयेत तृणपत्रसमन्वितैः करेणादाय वामेन सा चर्वे द्वामदं श्रया द्विजान् संकर्ष्य गोदोहं तद प्रक्षाल्य पाठयेद ताभ्यां दुर्दलाभ्यां नियदेन्द्रियः प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववद तदस्नानं प्रगुर्विद नद्यादौ विमले जले तडं प्रक्षाल्य दर्भाश्च विन्यस्य प्रविशे जलं प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलादर् गन्धाध्यैर्मण्डलम् कृत्वा ध्यात्वा देवं जनार्दनम् स्नायान् मन्त्रान् स्मरन् पुण्यां तीर्थानि च विधिञ्चि च गङ्गे च यमुने चैव गोदावरीसरस्वती नर्मदे सिन्धुकावेरी जलेऽस्मिन् सन्निधिं गुरु पुष्कराद्यानि तीर्थानि गङ्गाध्यासरिदस्कथा आगच्छन्तु महाभागास्नानकाले सदा मम अयोध्या मधुरा काशीं काञ्ची ह्यवन्दिका पुरी द्वारवदी ज्ञेया सप्तैः मोक्षदायिका ततो धम्मर्षण त्यक्त्वा यदा सुवारिसम्भृतः स्नानाङ्गम् तर्पणम् कृत्वा चम्यार्थम् न वेर्पयेद् तदो्यात्वा विभत्स्वन्तं जलनिर्गद्यनारद परिधायाहदं धौदं द्वितीयं परिवीय च कुशासने समाविश्य सन्ध्याकर्मसमारभेद ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज हृद मेत्यभिमन्त्रार्थ पुनरेवाच ततस्तु वाजिनात्मानं वेष्टयित्वा समुक्ष्य च सङ्कल्प्य प्रणवान् भेदु ऋषिछन्दः सुरन् स्मरन् भूरादिभिर्व्याघृदिभिः भे सप्तभिप्रोक्ष्य मस्तकम् न्यासं समाचरन्मत्रीपृथगेवकराङ्गयोः विन्यस्य हृदयदारम्भो शिरस्य ध विन्यसेद भुवशिकायां स्वश्चैव कवये भूर्भुवोक्षिषु भूर्भुवः स्वस्तधात्रास्त्रं दिक्षु तालत्रयं न्यसेद तद आवाह आवाह येत्सन्ध्यां प्रातः कोकनदस्थिताम् आगच्छ वरदे देवित्र्याक्षरे ब्रह्मवादिनि गायत्रिचन्दस्सामादर्ब्रह्मयो ने नमोऽस्तु दे मध्याह्ने वृषभारूढां शुक्लाम्बरसमावृतां सावित्रीं रुद्रयो निं चावाहये रुद्रवादिनीं सा यं दुर्गरूढारूढां पीताम्बरसमावृताम् सरस्वतिं विष्णुयोनिमाह्वयेद्विष्णुवादिनीं तारं च व्याहृति सप्तत्रिपदां च समुच्चरन् शिरःशाखां च सम्भूय कुम्भयित्वा विजये च ये वाममध्यात्परैर्वायुम् क्रमेण प्राणसंयमे द्विराचा मेत्तदः पश्चात्प्रातः सूर्यश्च मेदि आ बहुनन्दु मध्याह्ने सायमग्निश्चमेधि च आपोखिष्ठेधि तिसृभिर्मार्जनं च तदश्चरेद सुमोत्रीयान इत्युक्त्वा न सा स्पृष्टजलेन च देशद्वर्गं समुत्साह्य ध्रुपदां शिरशिक्षभेद कृत्वा चैवाकमर्शनम् अन्तश्चरदि मन्द्रेण सकृदेव पिबेदपः तदा सूर्याय विधिवद्गन्धम् पुष्पं जलाञ्जलिम् चित्तोपतिष्ठे देवर्षे भास्करम् स्वस्तिताञ्जलिम् ऊर्ध्व बाहुरथो बाहुक्रमात् कल्यादिगे त्रिगेत् उहुत्यम् चित्रं तच्चक्षुरित्ये धात्रिस्तयं जेद सौराञ्चवान् वैष्णवांश्च मन्द्रानन्यांश्च नारद ते जोषि गायत्र्यासीदि प्रार्थयेत्सविदुर्महः तदोङ्गाहित्रिरावर्त्यध्याये चक्रीस्तदात्मिका ब्रह्मणी च दुराननाक्षवलया कुम्भं हरैः सृ स्रुवौ बिभ्राणा त्वरुणेन्दुकाजिवदना हृद्रूपिणी बालिका हंसारोहणिखन् खण् मणिर्बिम्बार्चिता भूषिदा गायत्री परिभाविदा भवधु नसम्बत्समृद्ध्यै सदा रुद्राणि नवयौवन त्रिनयना वैयाखर्माम्बरा खड्वाङ्गत्रि शिखाक्षसूत्रवलया भेदि श्रियै चास्तु नः वेद्युग्दामजडा कलापविलसद्बालेन्दुमौलिर्मुदा सावित्री वृषवाहनासितनुर्ध्यया यजूपिणी ध्यया सा जसरस्वती भगवती पेदाम्बरालङ्कृता श्यामा श्याम तनुर्जरोपैलसद्गात्रां चिदा वैष्णवी र्क्ष्यस्तमणिनो बुराङ्गदलत्सद्ग्रैवेय भूषोज्ज्वलाहस्तालङ्कृतशङ्खचक्र सुगदा पद्माश्रीयैतास्तु नः एवं ध्यात्वा जपे तिष्ठन् प्राधर्मध्यान्नके तथा सायङ्काले भक्त्या तद्गद मानसः सहस्रपरमां देवीं शतमध्यां दशा वरां त्रिपदां प्रणवोपेदां भोगुव स्वरूपप्रमाद षकारसम्भुडो वा, वा विभ्रतिनश्च यदेर्जपः गृहस्थस्य सतारस्याजप्य एवंविधो मुनि ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च गायत्रेज सवित्रेज प्रक्षिपेतञ्जलिद्वयम् ततो विसृज्य ताम्बिप्र उत्तरे यदि मन्द्रदः ब्रह्मणेशेन हरिणाज्ञादा गच्छ सादरं दिग्भ्यो दिग्देवताभ्यश्च नमस्कृत्य कृताञ्जलिः प्रादरादेः परं कर्म कुर्यादपिविधानदः प्राधर्मध्यन्दिने चैव गृहस्थस्नानमाचर्येत वानप्रस्तश्च देवर्षस्नाय तृष्णवं यदि आदुराणां तु पान्थानां च सकृन्मतं ब्रह्मयज्ञं तत् कुर्य दर्भपाणिर्मुनीश्वर विवोधितानि कर्माणि प्रमादादकृतानि चेद् सर्वर्यप्रथमे यामे तानि कुर्याद्यथा क्रमं नोपास्ते यो द्विजसन्ध्यां धूर्तबुद्धिरनापदि पाषण्डस हि विज्ञेय सर्वधर्मबहिष्कृतः यस्तु सन्ध्यादिकर्मणि कूढयुक्तिविशारदः परित्यजदितं विद्यान् महापादकिनां वरं यद्विजा अभिभाषन्ते त्यक्त सन्ध्यादिकर्मणः पेयादिनरकन्कौराण्यावच्चन्द्रार्पतारकं देवार्चनं तदपूज्याद्वैश्वदेवं यथा विधि तत्रात्यमतिथिं सम्यगन्नाद्यैश्च वक्तव्या मधुरावाणी तेष्वाप्यभ्यागदे शुध जलान्न कन्दमूलैर्वा गृहदानेन चार्चयेद् आधिस्य भग्नाशो गृहात्प्रति निवर्धिते स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति अज्ञादगोत्रनामनमन्यग्रामादुपागतम् विपस्थितोदितिं प्राहुर्विष्णुवतं प्रपूजयेद् स्वग्रामवशिनं त्वेकं श्रोत्रियं विष्णुतत्परम् अन्नाद्यै प्रत्यहं विप्र पितृनुद्दिश्य तर्पयेद् पञ्चयज्ञपरित्यागि ब्रह्म ह्येदिच्छदे बुधैः कुर्यादहरहस्तस्मात् पञ्चयज्ञान् प्रयत्नतः देवयज्ञो भूतयज्ञ पितृयज्ञस्तथैव च नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान् प्रचक्षदे भृत्या मृता संयुक्त स्वयं भुञ्जीतवाज्ञतः द्विजानां भोज्यम् आश्रीयात्पात्रं नैव परि संस्थाप्य स्व समे पादौ वस्त्रार्थं परिधाय च मुखेनवमिदं भुक्त्वा सुरापीत्युच्यते बुधैः पातितार्थं पुनः खादेन्मोदकांश्च खा बलानि जा प्रत्यक्षं लवणं जैव गोमां शीदि गद्यदे आपो सानेव शमने अद्र अद्य द्रव्येषु च द्विज शब्द न पारयेद्विप्रस्थं कुर्वन् नारगी भवेद् पभ्यमन्नं प्रभुञ्जित वाग्यतोऽन्नमसुत्सयन्नम् अमृतोपस्तरणमसि अभोषानं भुजे पुरः अमृतापिधानमसि भोज्यान्ते पश्चकृत्पिभेद प्राणाद्य आहुतीर्गत्वा चम्य भोजानमाचरेद तदश्चाचम्यविप्रेन्द्रशास्त्रचिन्तापरो भवेद् रात्रावपि यदा शक्तिशयनाशनभोजनैः यङ्गृहीः सदाजारं गुर्यां प्रतिदिनं मुने यदा जारपरित्यागी प्रायचित्ति तदा भवेद् दोषितां शोधनं दृष्ट्वा पालिदाद्यैश्च स तम पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत् सहैव वा भवेत् तृषवनस्नायी न कस्मसृजनाधरः ब्रह्मचारी पञ्चयत्नपरायणः फलमूलाशनो नित्यं स्वाध्याय निरधांस्तथा दयावान् सर्वभूतेषु नारायणपरायणः वर्धयेद्ग्रामजातानि पुष्पाणि च फलानि च जा अष्टौ ग्रासां शभुञ्जेद न कुर्या त्रिभोजनं अत्यन्तं वर्जयेत्त इदं वानप्रस्थसमाश्रमी व्य वायं वर्जय चैव निद्रा दस्येतथैव च शङ्खचक्रकदापाणि नित्यं नारायणं स्मर्यते वानप्रस्थकुर्वीद पश्चान्द्रायणादिकं सखेदशीततापादिवह्निं परिचरेत् सदा यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु तदैव संन्यसेद्विप्रपदितस्त्वन्यधा भवेद् वेदान्ताभ्यास निरदशान्तो धान्तो जितेन्द्रियः निर्द्वन्द्वो निर्मम सर्वदा भवेद् समाधिगुणसंयुक्त कामक्रोध ग्नो वाजिर्न कौपीनौ भावेन्मुन्दो यदिर्द्विजकः सा मत्रौ जित्रे च तथा मानपमानयोः एकरात्रं वसमि त्रिरात्रं नगरे तथा भैक्षेण वर्तये नित्यं नयिकाह्नादि भवेद्य निन्दित द्विजगृहे व्यङ्गारे भुक्तिवर्जिते विवादरचिते चैव भिक्षार्थं पर्यडेद्यधि भवेत् तृशवनस्नायि नारायणपरायणः जपे च प्रणवं नित्यं जिदात्मा विजितेन्द्रियः एकान्नादि कदा चिल्लं बडो यदि हि प्रायचित्तायुधैरपि लोभाद्यधीयतिर्विप्रदनुपोषपरो भवेत् स क्षण्डालसमज्ञयो वर्णाश्रम विकर्षितः आत्मानं चिन्तये द्रेवम् नारायणमनामयम् निर्द्वन्द्वं शान्तम् मायाधीतमत्सरम् अव्ययम् परिपूर्णं च सदानन्दैकविग्रहम् ज्ञानस्वरूपमममलं परं ज्योतिषनातनम् अभिकारमनाद्यन्तं जगच्चैतन्यकारणं निर्गुणं परमं ध्यायेदात्मानं परतः परं पठेदुपनिषद्वाक्यं वेदान्तार्थान् चिन्तयेद् सहस्रशीर्षं देवंश्च सदा ध्याये जितेन्द्रियः एवं ध्यानपरो यस्तु यदुर्विगतमच्छरः स याति परमानन्दं परं ज्योतिषनातनम् इत्येवमाश्रमाचारान्य करोदि वर्णाश्रममाचाररथा सर्वपापविवर्धितः नारायणपरायान्ति तद्वेष्णपरमं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचार्येषु गृहस्थाह्वानप्रस्त यदि धर्मनिरूपणनाम सप्तविंशोऽध्यायः ओम्